करुडपुराणम् आचारकाण्डम् अध्यायम् टु हण्ड्रड् भैरव उवाच वक्ष्ये वायुजयम् देवि जया जय विदेशकम् वायु अग्निजलचक्राह्यम् मङ्गलानाञ्चतुष्टयम् वामदक्षिणसंस्थश्च वायुश्च बहुलो भवेत् ऊर्ध्ववाही भवेदग्निरद्धस्तु वरुणो भवेद महेन्द्रो मध्यसंस्थस्तु शुक्लपक्षे दुवामगः कृष्णपक्षे दक्षिणग उदयस्य त्रियः कन्द्रियः पहेत् र्धन् दे गुणसङ्घाद अन्यथा विघ्नमौचितम् सम्प्रान्ध्यषोडशप्रोक्ता दिवारात्रौ वरानने यथा च सङ्क्रमेद्वायुरर्धार्धप्रहरे स्थितः स्वास्त्या हानिस्तदा ज्ञेय वायुर्भ्रमति देहिषु दक्षिणे च पुडे वायुर्भिदो भोजनमैथुने खड्गहस्तो जयेद्युद्धे रिपून्कामसमन्वितः वामेव गमनं श्रेष्ठं सर्वकार्येषु भूषितं वायुर्वकदि तत्रस्तप्रश्रोभूतस्य शोभनः माहेन्द्रवारुणे वादे कोपि दोषो न जायते अनावृष्टिर्दक्षवाहे वृष्ठे स्याद्वामवाहके यदि श्रीकारुडे महापुराणे आचारकाण्डे द्विशततमोऽध्यायः ओम् अध्यायम् टु हण्ड्रेड् अण्ड् वन् धन्वन्तरिरुवाच हयायुर्वेदमाख्यास्ये हयम् सर्वार्थलक्षणम् काकतुण्ढकृष्णजिह्वो वृक्षास्यच्चोष्णतालुकः करालोहीनदन्तश्च श्रृङ्गिविरलदन्तकः एकाण्डश्चैव जादाण्ढकञ्जुकी द्विकुरीस्तनी मार्जारपादो व्याघ्राभक्कुष्ठविद्रधिसन्निभः यमजो वामनश्चैव मार्जारकपिलोचनः ये दद्दोषी हयस्त्याज्य उत्तमो श्वस्तुरुष्कजः मध्यमपञ्चहस्तश्च कनीयां शत्रिहस्तकः असंहदाये ह्रस्वकर्णास्तथैव च शबलाभाः प्रभवेषु न दीनाश्चिरजीविनः रेवन्दपूजनाधोमास्त्रक्ष्याश्च द्विच भाजेनाद सरलं निम्नपत्राणि गुगुलं सर्षपान् कृतं तिलञ्चैव बध्नीया द्वाजिनोगले आगन्तुजं दोषजन्तुव्रणं द्विविधमीरिदम् चिरपागं वादजन्तुश्लेष्मजं क्षिप्रपाकं कण्ठदाहात्मकं पित्राच्छ्रोणीतान्मन्दवेदनम् आगन्तुजन्तुशस्त्राद्यैर्दुष्टव्रणविशोधनम् ये रण्डमूलं द्विनिश्यं चित्रगं विश्वभेषजम् रसोनं सैन्धवं वापितक्र काञ्चिकपोषितं तिलसक्रुकपिण्डिकादधियुक्तः ससैन्धव निम्बपत्रयुधं पिण्डं व्रणशोधनरोपणं पडोलं निम्बपत्रञ्च वचाच्चित्रकमे वच पिप्पली शृङ्गवेरञ्च चूर्णमेकत्र कारयेद यत्पानात् कृमिश्लेष्ममन्दानिलविनाशनं निम्बपत्रम् पडो लञ्च त्रिफला खदिरं तथा क्वाधयित्वा तदोवाहं श्रुतरक्दं विचक्षणः त्र्यहमेव प्रिदातव्यं हयकुष्ठोपशान्दये संव्रणेषु चकृष्ठेषु तैलं सर्षपजं हितं लशुनादिकषायश्च पानभुक्युपशान्दये माधुलुङ्गरसोपेदं मांसीनां रसकेन वा सद्यो दद्यात्तत्र नस्य मन्यैर्वादै सुसंयुतैः फलद्वयं प्रथमेह्नियेकैकफलवृद्धितः यावद्दिनानि पूर्णानि फलान्यष्टादशोत्तमे अधमेष्टफलानि स्युर्मध्यमे स्युच्च दुर्दश शरन्निदाखयोर्नैव देयं नैव तैलेन वादिगे तैल न वाधिगेगे शर्क्य पयोन्वित कडुतव्यो क्षित्ते क्षत्रिफलाबु शालीष्टिकुग्धाशी हौन नजुगुपीद पक्वंबूनिदेम वर्णश न गुजुगुस अर्धप्रहरणे धुर्ये गुगुलुं प्राशयेद्धयं भोजयेत् पायसं दुग्धं सत्वरं सुस्तिरोहयः विकारे भोजने दुग्धं शाल्यन्नं वादले ददे कर्ष मांसरसैपित्ते मधुमुद्गरसजकैः कभे मुद्गान कुलद्धान्वा कडु तिक्दान्कफेहये माधिर्ये व्याधिदेग्रास्ये त्रि दोषादौदुगुगुलः कासैर्धूर्वा सर्वलोके प्रथमेऽह्नि फलं ददे विवर्धयेत्तदकर्षमेकाह्नि फलपञ्चकं पानेजभोजने चैव अशीतिफलकम् परं मध्ये षष्टिश्चाधमेषु चत्वारिंशभोगिषु व्रणे कुष्ठेषु कञ्चेषु त्रिफलाक्वाधसंयुधम् मन्धाग्नौ धरोगे जगवां योजितं वादपित्ते व्रणे व्याधौ गोक्षीरं कृदसंयुधम् देयम् कृश्यानां वृष्ट्यार्थं मांस्यैर्युक्तं च भोजनं सुपिष्ठाया प्रदातव्यम् फलपञ्चकं प्रभादे घृदसंयुक्तं शरद्ग्रीष्मे च वाजिनं रोगघ्नं पुष्टितं चापि बलतेजो तद्वाय दातव्य क्षीरयुक्त मधा वुडूचीक सदा वर्श्वगंधो चुरी मध्य जघन्य फला अगस्मेक यदा भवद दे। म्रियते चा क्षिप्रमुसर्गम तमाशेद होमाइरक्षाया विप्रभोजन बलिकर्म शांद्योपसर्गशाधि सिया तक्याद हरीतकवा मूत्रैल लवणाविध आद पंचत पंचवृद्धिया पूर्णशावधि उत्तम चतमा त्वशीदिषष्ठिरेव वा गजायुर्वेदमाख्यास्येव उक्दा कल्पा गजे हृदाः गजे च दुर्गुणमात्रास्ताभिर्गजरुगरुदनः गजोपः सर्गव्याधीनां शमनं शान्तिकर्मजा पूजयित्वा सुरान्विप्रान् रत्नायुर्गां कपिलां दधेद दन्दिदन्तद्वये दंद मालां निबडीयादुपोषिधः मन्त्रेण मन्त्रितान् वैद्यायैर्वचा सिद्धार्थकांस्तथां सूर्यादिशिवदुर्गा श्रीविष्णुवार्चारक्षयेद्गजम् बलिं दद्याच्च भूतेभ्य स्नापयेच्च चतुर्घटैः भोजनमन्द्रितं दद्याद् भस्मनो धूनयेद्गजं भूतरक्षाशुभा मेध्यावारणं रक्षयेत् सदा त्रिफला पञ्चकोले च दशमूलं विडङ्कम् शतावरी गुडुचीचनिम्बवासकिंशुकः गजरोगविनाशाय हिदो रूक्षः कषायकः का आयुर्वेदद्वयोक्तानामुक्तं सङ्क्षेपसारदः इति गारुडे महापुराणे आचार्यकाण्डे गजाश्वायुर्वेदनिरूपणं नामयिकाधिगद्विशततमोऽध्यायः ओम् अध्यायम् टु हण्ड्रेड् अण्ड् टु हरिरुवाच एकम् पुनर्नवामूलमपामार्गस्य वा शिव सरसं योनिः क्षिप्तम् वरांगस्य व्यम हरेद प्रसूति वेदना चरुणी व्यम हरेद भूमि कूष्मा वैशाली चूर्णमदा सप्ताह दुग्धभेद स्त्रीण बहुपयस्कर रुद्रेन्द्रवारु रुद्रेन्द्रवारुणिमूलं लोपा स्त्रीस्तनवेदना नश्येद कृतपक्वा च कार्यावश्यन्तु बक्षितासा भक्षिता सा महेशानयोनिशूलं विनाशयेद प्रलेपिताकारवेल्ल मूले नैव विनिर्गता योनिप्रवेशमायादिनात्रकार्याविचारणा नीलीपडोलमूलानि साज्यानि तिलवारिणा पिष्टान्यश्रां प्रले ओ वैज्वाला गर्भभरागनद पाठामूलं रुद्रबीदं पिष्टं तण्डुलवारिणा पापरोगफरं स्याच्च कुष्ठपानं तथैव स्योदकञ्च समधु पीतमन्तर्गतस्य वै पापरोगस्य सन्तापने वृक्तिं गुरुदेशिव वै सह प्रदरं हरदे रोगं नात्रकार्या विचारणा द्विजयष्टित्रिकडुकं चूर्णं पीतं हरेच्छिव तिलक्वाधेन संयुक्तं रक्तगुल्मं स्त्रियाहरं कुसुमस्य निबद्धज तरुणीनां महेश्वर रक्ततोपलस्य वै कन्दं शर्करातिल संयुदं पिदं सत् शर्करं स्त्रीणां धारयेद्गर्भपादनाद रक्तस्त्रावस्य नाशस्याीदोदकनिषेवणदीन्धु काञ्चिकरुद्रक्वथितं शरभुङ्गयां हिङ्गुस्त्रैन्धव संयुक्तं शीघ्रं स्त्रीणां प्रसूदिकृद माधुलुङ्गस्य वैमूलं कडिबद्धं प्रसूदिकृद अपामार्गस्य वैमूले गर्भवतस्तु नाम उत्पाट्यने सके पुत्र स्युदा अगस्त वैमूल नारीण शिशिदे गर्भशूल विनश्येतनाचारण कर्पूरमदनफलमधुपूरीद शिव योनिशुभा सृद्धा युवध्या किं पुनर्वरा यस्य बालस्य तिलककृदो गौरोचनख्यया शर्करा कुष्ठपानं च दत्तं सस्या च निर्भयः विषभूतग्रहादिभ्यो व्याधिभ्यो बालपशिव शङ्घनाभिभजागुष्ठलोहानां धारणं सदा उपसर्गेभ्यो रुद्र रुद्ररक्षाकरं भवेद पलाशचूर्णं समधो गव्याज्यामलकान्विधं सविडङ्गं पीदमात्रं नरं कुर्यान् महामदिं मासैके न महादेवजरामरणवर्जितः पलाशबीजं सकृतं तिलमध्वनिदं समं सप्ताहं भक्षितं रुद्रजरां न यदि संशयम् रुद्रा रुद्रामलकचूर्णं वै मधुतैलकृदान्विधं जग्ध्वा मासं युवा स्याच्च नरो वागीश्वरी भवेद शिवामलकचूर्णं वै मधुना उदकेन वा बलानि कुर्या नासायाः प्रत्यूषे भक्षितं शिवा कुष्ठचूर्णं साज्य मधुप्राद भवेन्नरः साक्षात् सुरभिदेहो वै जीवेद्वर्षसहस्रकम् माषस्य वितलान्ये विदुषाणि महेश्वर कृतभाविदशुष्काणि पयसा साधितानि वै समाध्वाज्यपयोभिश्च भक्षयित्वा च कामयेद स्त्रीणां शत महादेवतात्क्षणान्नात्र संशयः चैरण्डतैलेन गण्डकेन शुभो भवेद् त्रिकालोदकसङ्घुष्टो बलकृद्भक्षणाद् भवेद दुग्धं विदुषमाश्रैश्च सिम्बाबीजैश्च साधितं, अपामार्गस्य तैलेन पीतं स्त्रीशतकामकृद इति महा, इति श्रीगारुडे महापुराणे आचार्यकाण्डे नानाविद्धौषधप्रयोगानिरूपणम् नाम द्वि उत्तरद्विशततमोऽध्यायः ओम् अध्यायम् टु ओम। अण्ड् 203 हरिरुवाच या गौर्द्वेष्टिम् स्वकम् वत्सम् तस्या देयम् स्वकम् पयस लवणेन समायुक्तम् तस्य वत्सप्रियो भवेद शुनोऽस्ति कण्ठबद्धम् हि महिषाणाम् गवा तथा कृमिजालम् पादयति सकलम् नात्र संशयः गो जङ्गनाभिपादस्या कुञ्जामूलस्य भक्षणाद् वरुणफलस्य रसं करेणमधिदं शिव चतुष्पादद्विपदह्यो कृमिलं निपातयेद् व्रणञ्च समये दुद्र जयाया पूरणात् तद्धा गजमूत्रस्य वैपानं गो माहेश्युपसर्गनुदत् समसूरशालिबीजम्बीदं तक्रेणकर्षितं क्षीरे गोमहीषस्यैव गोः पुंसश्च घिदं भवेद् पत्रञ्च शरपुङ्खाया दत्तं सलवणं शिव वारिस्फोर्डम्भयानाञ्च केसराणां विनाशयेद् कृतकुमारीपत्रमेव दत्तं सलक्षणं हर कंडू कण्डूनंश्येन्न संशयः यदि गारूडे महापुराणे आचारकाण्डे नानौषधप्रयोगनिरूपणं नाम त्रिय उत्तर द्विशततमोऽध्यायः ओम अध्यायम् 204 सूद उवाच एवम् धन्वन्तरिप्राः सुश्रुतायज वैद्यगम् अद नामानि वक्ष्यामि ओषधीनां समासदः स्थिराविदारिगन्धा च शालपण्यशुमत्यपि दाङ्गली कलसि चैव पुच्चा गुहा मदा पुनर्नवाधपार्शाभू कठिल्या कारुणा तथा येरण्टश्चोरुकस्या दामर्दो वर्धमानकः शशानागबलाज्ञेयाश्वदंष्ट्रा गोक्षुरोमदः शदावरीवराभिरुपीवरीन्दीवरीवरी व्याक्रेतु बृहदि कृष्णाकंसपादी मधुस्तव धामनी कण्डकारी स्यात् क्षुद्रा सिंही निदिग्धिका वृच्छिका स्त्रियामृता काली विषग्नी सर्पदं श्रिका मर्कडी चात्मगुप्ता स्यादार्शेयी कपिकच्छूका मुद्गपर्णो क्षुद्रसह मार्षपर्णो महासः त्यजा पराजमहाज्ञेय दण्डयोऽन्यङ्गसञ्ज्ञया न्यग्रोधस्तु वडो ज्ञेयः अश्वद्धकपिलो मदः प्लक्षोधगर्दभाण्डस्यात्पर्कडीचकबीतनः पार्थस्तु कगुबोधन्वि विज्ञेयोऽर्जुननामभिः नन्दिवृक्षप्ररोहि स्यात् पुष्टिकारीदि चोच्यते पञ्चुलो वेदसोज्ञेयो भल्लादश्चाप्यरुष्करः लोध्रसारवको दृष्टस्तिरीडश्चापि कीर्तितः बृहद्भला महाजम्बूर्ज्ञेया बालहल बालफला परा तृदिया जलजम्भूस्यान्नादेयी सा जकीर्तिता कणाकृष्णोपकुञ्जी च चा। शौण्ढी मा गधिकेति च कथिता तन्मूलं गंधिकं स्मृदं, उष्णं मरिचं ज्ञेयं शुण्ठी विश्वम् महौषधम् व्योषम् कडुत्रयम् विद्या त्योष्णम् तच्च कीर्त्यदे लाङ्गली हलिनी च स्यात् च यसि गजपिप्पली त्रायन्ति त्रायमाणा स्यादुत्साया सुवफा वह्निरग्निसंज्ञाभिरुच्यते षग्रन्थोऽग्रावजाज्ञेया श्वेदा हैमवतीति च कुडजो वृक्षकशक्रो वत्सको गिरिमालिका कलिङ्गेन्द्रय वारिष्टं तस्य बीजानि लक्षयेद् मुस्तक्तो मेखनामा स्यात् क्रौन्दी ज्ञेया हरेणुका येला च बहुला प्रोक्ता सूक्ष्मैला च तथा तृडिः पद्मा भार्गङ्गो तथा काञ्ची ज्ञेया ब्राह्मणयष्टिका मूर्वा मधुरसा ज्ञेया महानिम्बो बृहन्निम्बो दिव्यगस्याद्यवानिका विडङ्गं कृमशत्रुस्यामढं हिङ्गुरुच्यदे अजाजीजीरकं ज्ञेया करवी चोपकुञ्चिका विज्ञेया कटुका तिक्ता तथा कटुकरोहिणी तगरं स्यान्नदं त्वचवराङ्गकम् उदीच्यम् बालकम् प्रोक्तम् ह्रीबेरम् चाम्बुनामभिः पत्रकम् दल संज्ञाभिश्चारकम् तस्कराह्वयम् हेमाभम् नागसंज्ञाभिर्नागकेशर उच्यते अश्रुकुङ्कुममाख्यातं तथा काश्मीरबाह्लिकम् अयो लोहं समुद्दिष्टं यौगिकैर्लोहनामभिः पुरं कुडनडं विद्यान् महिषाङ्घः पलङ्गास्मरीकड्बलाज्ञेया श्रीपर्णो चेदिकीर्तिदा चल्लकी गजभक्ष्या च पत्री च सुरभीस्त्रवः धात्री मामलकीं विद्यादक्षश्चैव विभीतकः पद्याभया च विज्ञेयापूदना च हरीतकी फलत्रिकम् उदकीर्यो दीर्घ ृन्थकरञ्चेदिकीर्तिदः यष्टियष्ट्याह्वयम् प्रोक्तम् मधुगम् मधुयष्टिका दातगी ताम्रपर्णो स्यात् समङ्गा कुञ्जरा मदा सिदम् मलयजं शीदम् गोशीर्षम् शीतचन्दनं विद्याद्रक्तम् चन्दनं च द्वितीयं रक्तचन्दनम् काकोली च स्मृता वीरा वयस्या चार्कपुष्पिका शृङ्गी कर्कटशृङ्गीजमहाघोषा जकीर्तिदा तुङ्गाक्षीरी शुभावांशी विज्ञेया वंशलोचना मृद्विका च द्राक्षा तथा गोस्तनिका मदा स्यादुक्षीरं मृणालं च सेव्यं लामज्जकं तद्धा सारं च गोपवल्ली च गोपीभद्रा च कथ्यते दन्दीकडङ्कडेरी च ज्ञेया दारुनिषेधि च हरिद्रारजनी प्रोक्ता पीतिका रात्रिनामिका वृक्षादनीचिन्नरुहा नीलवल्लीरसामृदा वसुकोटश्च विज्ञेयो वाशिरकाम्बिलो मदः पाषाणभेदकोरिष्टो ह्यस्मा ह्यस्मभित्कुट्टभेदकः खण्डाकशुष्कको ज्ञेयो वचोथसूचको मदः सुरसो बीचकश्चैव पीतशालोऽभिधीयते वज्रवृक्षो महावृक्षस्नुही स्नु च सुधागुडा तुलसीं सुरसं विद्यादुपस्थेति जगध्यते कुटेरकोऽप्यर्जुनकपर्णो सौगन्धिपर्णिकः नीलश्च सिन्धुवारश्च निर्गुण्ठेदि सुगन्धिका ज्ञेया सुगन्धिपर्णेधि वासन्दी कुलजेति च कालीयकम्पीतकाष्ठं कथकाख्यः पुनः स्मृदः गायत्री खदिरोज्ञेयस्तद्भेदः कन्दरो मदः इन्दीवरं कुवलयम् पद्मं नीलोत्पलं स्मृतं सौगन्धिकं शतदलमब्जं कमलमुच्यते अजवर्णो भवेद्दूर्जो वाजिकर्णोऽश्वकर्णकः श्लेष्मान्तकस्तधा शेलोर्बहुवारश्च कथ्यते सुनन्तकः कगुद्भद्रम् छत्राकी छत्रसञ्ज्ञका कबरीकुम्भको दृष्टः क्षुद्विधो धनकृत्ता धा कृष्णार्जककरालश्च का कालमानप्रगीर्तिदः प्राजीबला नदीक्रान्ता कागजङ्गाधवायसि ज्ञेया मूषिकपर्णो दुभ्रमन्दी चाघुकर्णिका विषमुष्टिर्द्रावणञ्च केशमुष्टिरुदाहृदा किं लिहीं कडुकीं विद्यादन्तकश्चाम्लवेदसः अश्वद्धा बहुपत्रा च विज्ञेया चामलक्यपि अरुषक्रं पत्रचूकं क्षीरीराजादनं मदं महापत्रं दाडिमं च वदेद मत्सूरी विदली शष्प कालिन्दीदिनिरुच्यते कण्टकाख्या महाश्यामा वृक्षपादिवक्ष्यते विद्याकुन्दीनिघुम्भाज त्रिभङ्गी त्रिपुडी त्रिवृद सप्तला चर्म चर्मकषेति च शङ्घिनी सुकुमारीज च तिक्ताक्षी पीलुकं चा चाक्षिपीलुकं गवाक्षी चामृताश्वेता गिरिकर्णो गवादिनी काम्बिल्लकोदरकृङ्गो गुण्डारो च निकेदिजा च हेमक्षीरी स्मृदापिता पिता गौरी वै कालदुग्धिका गाङ्गेरुगिना गबला विशाला चेन्द्रवारुणी तार्क्ष्यं शैलं नीलवर्णमञ्जनञ्जरसाञ्जनं निर्यासो यश्च शाल्मल्या समोचरसञ्ज्ञकः प्रत्यक्पुष्पीकरी ज्ञेया अभामार्गोमयूरकः सिंहास्य वृषवासाकमाडरूषकमाधिषेद जीवको जीवशाकश्च कर्बुरश्च षडीं विदुः कड्बलं सोमवृक्षस्यादग्निगन्धा सुगन्धिका शदाङ्गं शतपुष्पा च मिंसिर्मधुरिका मदा ज्ञेयं पुष्करमूलञ्च पुष्करम् पुष्कराह्वयं या शोधन्वयांसश्च दुष्पर्शोध दुरालभा वाकुची कुचिसोमराजी च सोमवल्लिधिकीर्तिता मार्गवक्केशराजश्च भृङ्गराजो निगद्यते प्रोक्तस्तेड गजस्तज्ञैश्चक्रमर्दकसंज्ञकः सुरङ्गीदतरस् सुरङ्गीदगरस्नायु कलनाशाधु वायसि महाकालस्मृदो बेलस्तण्डुलियो घनस्तनः इक्ष्वाकुस्तिक्दुम्बी इक्ष्वाकुस् तिक्ततुम्बी स्यात् तिक्तालभुर्निगद्यते धामार्गबोधकोशादक्यथयामिनी विद्यात् कोशतकिभेदं कृतभेदनसंज्ञका तथा जीमोदकख्याज खुड्डागो देवताडक क गृध्रनकी गृध्रनकी हिङ्गुकादनी मदा अश्वारिश्चैव बोधव्यकरवीरोश्वमारकः सिन्धुः सैन्धव सिन्धुधमणि मन्धमुदाहृदम् क्षारो य यवा यवा क्षारो यवाग्रजश्चैव यवक्षारोऽभिधीयते सर्जिकसर्जिकाक्षारो द्वितीयः परिकीर्तितः काशीरं, पुष्पकाशीरं विज्ञेयं नेत्रभेषजम् धातुकाशी सकाशी च संज्ञेयं तच्च कीर्तितं पाक्षी वै पङ्कपर्पडी विद्यासमाक्षिकं धातु ताप्यं ताप्युद्धसम्भवं शिलामनःशिलाज्ञेया नेपाली कुलटीति च आलं मनस्तालकं वा हरितालं विनिर्दिशेत गन्धगो गन्धपाषाणो रस्सपारद उच्यदे ताम्रमौदुम्बरं शुल्बं विद्यान्लेच्छमुखं तथा अद्रिसारस्त्वयस्तीक्ष्णं लोहकञ्चापि कथ्यते माक्षिकं मधुचक्षौद्रं तच्च पुष्परसंस्मृतं ज्येष्ठन्तु सोदकं तस्या काञ्चिकं सीतासितोपला चैव मत्स्यन्दी शर्करा स्मृता त्वगेलापत्रकैतुल्यैस्त्रिसुगन्धित्रिजातकं नागकेश नागकेशरसंयुक्तं तच्च दुर्जागमिष्यदे पिप्पिलीपिप्पिलीमूलं शव्यचित्रकनागरैः कथितं पञ्चकोलञ्चकोलकं कोलसंज्ञया प्रियङ्गुकङ्गुकाज्ञेया कोरदूषश्च कोद्रवः त्रिपुडपुडसंज्ञश्च कलापोलङ्गकोमदः सदीनो वर्तुलश्चैव वेणुश्चाभिप्रकीर्तिदः पिचुकं पितलं चाक्षम् बिडालपदकं तथा विद्यात्कर्षं तथा चापि सुवर्णं कवलग्रहं परार्थं शुक्रिमिच्छन्ति तदाष्ठौ माक्षिकस्त्विधि फलं बिल्वञ्जमुष्टि स्याद्वे फले प्रसृतिं वदेद अञ्चलिम् कुडवञ्चैव विद्यात् पल चतुष्टयम् अष्टमानम् फलन्यष्टौ तच्चमानमिति स्मृदम् चतुर्भि कुडवैप्रस्थप्रस्थाश्चत्वार आठकः काशपात्रम् च स तुलाफलशतं प्रोक्तं भावो विंशत्फलस्मृदः मानमेवंविधं प्रोक्तं प्रस्तद्रव्येषु पण्डितैः द्रव्यद्रव्येषु चोद्दिष्टं द्विगुणं परिकीर्तयेत् दे। भद्रतारुदेवकाष्ठं दारु स्यात् देवदारुकं माख्यादं मास्यीं च नलदं शनं शङ्खशुक्तिनख शङ्खो व्याघ्रो व्याघ्रनख रसो गन्धरसो बोले सर्ज सर्जरसो मदः प्रियङ्ुफलिनिश्याम चोच्यदे गौरीकान्तेदि चोच्यते करजौनकमालस्यात् पूतिकश्चिरभिल्वकः शिघृशोभाञ्जनो नाम ज्ञानमानश्च कीर्तितः जया जयन्तीशरणि निर्गुण्डीसिन्धुवारकः मोरडापीलुपर्णोजा तुण्डी स्यात्तुण्डिकेरीका मदनो गालवो बोधो कोडखोडी च कथ्यते चतुरङ्गुरङ्गुलसम्पाको व्याधिकापि संज्ञकः विद्यादारग्वधं राजवृक्षं रैवज्ञकम् दन्दीकाकेन्दु तिक्दा स्यात्कण्डकी च वितङ्गदः निम्बोरिष्टसमाख्यादपडोलं कोलकं विदुः वयस्ता च विशल्या चिन्ना चिन्नरुहा मदा वशात् दन्द्यामृता नाम सङ्ग्रहः किराततिक्तकश्चैव भूनिं भक्काण्डतिक्तभः सुद उवाच नामान्येतानि जफरेवन्यानाम्भेषजां तथा अधो व्याकरणं वक्ष्य कुमारोक्तं शौनक इति श्रीगरुडे महापुराणे आचार्यकाण्डे चतुरुत्तरद्विशततमोऽध्यायः ओम् अध्यायम् टु हण्ड्रेड् अण्ड् फैव् कुमार उवाच अथ व्याकरणं वक्ष्ये कात्यायनसमासदः सिद्धशब्दविवेकाय बालव्युत्पत्तिहेदवे सुप्तिङन्तम् सुप्तिनन्दं पदं विख्यातं सुपः सप्तविभक्तयः सौजः स प्रथमा प्रोक्ता सा प्रातिपदिकात्मके सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि अर्धवत्प्रातिपदिकं दादु प्रत्ययवर्जितम् अमौषसो द्वितीया स्यात्तत्कर्म क्रियते च यद्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुगे दभ्याम्भिस्वस्तृदीया स्यात् करणे कर्तरी हृदा येन क्रियते करणं तत्कर्ता यः करोदिसः भ्यांभ्य सश्चतुर्धो स्यात् सम्प्रदाने चकारके यस्मै दित्सा धारयदे रोचते सम्प्रदायकं पञ्चमी स्यान्मस्येभ्यां भ्यो ह्यपादे ह्यपादाने चकारके समादत्ते उपादत्ते भयं यदः सोऽसामश्चषष्ठी स्यात् स्वामी सम्बन्धमुख्यके योऽसु भो वै सप्तमी स्यात् सा चाधिकरणे भवेद् आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः ईप्सितं चानीप्सितं यत् तदपादानकं स्मृतम् पञ्चमी पर्युपाङ्ोगे इदरर्थेऽन्यदिग्मुखे येन योगे द्वितीया स्यात्कर्म प्रवचनीयकैः वीप्सेद्धं भावचिह्नेभ्यर्भागेनैव परिप्रदी। अनुरेषु सहार्देज हीने नूपश्च कथ्यदे द्वितीया चतुर्धो स्याच्चेष्ठायां गतिकर्मणि अप्राणे हि विभक्तिबे मन्यकर्मण्यनादरे नमः स्वस्ति स्वधा स्वाहालं तुमर्थाद्भाववाचिनः तृतीया सहयोगे स्यात् कुत्सिदेङ्गे विशेषणे काले भावे सप्तमी स्याधेदैर्योगे द्विषष्ठ्यदि स्वामीश्वराधिपतिभिः साक्षि निर्धारणे द्वे विभक्तो षष्ठी हेतुप्रयोगके स्मृत्यर्थकर्मणि तदा करोते प्रतियत्नके हिंसार्थानां प्रयोगे जकृति कर्मणि कर्वरि न कर्तृकर्मणो षष्ठी निष्ठयो प्रातिपदिके द्विविधं प्रातिपदिकं नाम धातुस्तदैव च भुवान् स्याल्लकारा दशवैस्मृताः तृप्तसुचिप्रथमो मध्यसिद्धस्थोत्तमपुरुषः मिद्वस्मस्तु परस्मैः पदानां चात्मनेपदं तदाञ्च प्रथमो मध्यस्थासा धान्ध्वमधोत्तमः आदेश युग्भिमहि धातुतो निजादवद निजाधवद नाम्नि प्रयुज्यमानेऽपि प्रथमपुरुषो भवेद मध्यमो युष्मदि प्रोक्त उत्तमपुरुषोऽस्मदी भुवाद्या धादव प्रोक्ता सना द्यदास्तदा तदः लडीरितो वर्धमाने स्मेनातीते च धातुः भूदे नद्यतले लग्वा लङ्वा लोडाद्याशिषि धातुदः वानुमदो लोड्वाच्यो मन्त्रणे भवेद निमन्त्रणाधीष्टसम्प्रेश्रे प्रार्थनेषु तथा लिङ्गती ते परोक्षे स्या लिड्भूदे लट् भविष्यति स्यादनद्यतने तद्वद्भविष्यति तु धातुः धातोर्लिङ्लिगाधिपत्तौ लिङ्र्थे लेट्प्रकीर्तितः कृतस्तृष्वपि वरुतन्ते भवे कर्मणि कर्तरि सदृशास्तव्यदाण्यद्यदनीयाश्च तृजादयः यदि श्रीगारूढे महापुराणे आचारकाण्डे व्याकरणनिरूपणं नाम पञ्चोत्तरद्विशततमोऽध्यायः ओम् अध्यायम् टु हण्ड्रेड् अण्ड् सिक्स् सुत उवाच सिद्धोदाहरणं वक्ष्ये संहितादिपुरस्सरं विप्रा स्वा विप्रा स्वसा गदाविवेदं सुत्तमं स्याद्प्यदृषभकारो विश्रुतसेवं लाङ्गलीशमनीपया गङ्गोदकम् तवल्कारऋणार्थं प्रार्णमित्यपि शीतार्थश्च तवल्कारसैन्द्रिस्सौकार इत्यपि वद्ध्वा सनञ्च पित्रार्थे पित्रार्थो लनुबन्धो नये जयेद नायको लवणं गावस् एते नद देवी गृहमधो अत्र आवेहि पडू इमौ अमी अश्वा षडस्यति तन्न वाक्षड्दलानि च तच्छरे तल्लुनादीति तज्जलं तच्छमन् शनकम् सुगन्नत्र पचन्नत्र भवांश्चादयदीति च भवाञ्चनत्करश्चैव भवांस्तरति संस्मृदम् भवां लिखति ताञ्चक्रे भवाञ्चेदेऽप्यनिदृशः भवाण्डीनं त्वन्दरसि त्वङ्गरोषि सदर्शनम् कश्चरेत्कष्टकारेण कुर्यात्कफले स्थितः कश्चेदे चैव कषण्ठकस्को यादिजगौरवम् क इहात्र क एवाहुर्देव आहुश्च भो व्रज स्वभूर्विष्णुर्व्रजति ज गीष्पदिश्चैव दूर्पदिः सस्यादृक्सामच स गच्छति कुडीचाया तदा चाया सन्थयोन्ये तथेदृशाः समासात् षट्समाख्या द्विगुस्त्रिवेदी ग्रामश्च अयम् तत्पुरुषस्मृतः तत्कृतश्च तदर्थश्च मृगभेदिश्च यद्धनम् ज्ञानदक्ष